ईश्वरञ्चापि भूतानान्धातारम् वैक्षिप च वैक्षिपशिक्ष्यस्वैनं नमस्त्वैनं मातेरीदृशी यस्य प्रसादा तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् उत्तमान् देवताङ्कृष्णे मावमं स्तः कथञ्चन इति श्रीमहाभारते वनपर्वणि अर्जुनागमन पर्व युधिष्ठिवाक्ये एक